ब्रह्माण्डपुराणम् उत्तरभागम् अध्यायं त्रिप्रतिसर्गं सूत उवाच प्रत्याहारं प्रवक्ष्यामि परस्यान्ते स्वयं भुवः ब्रह्मणस्थितिकाले दुक्षिणे तस्मिंस्तदा प्रभोः यथेदं कुरुदेव्यक्तं सुसूक्ष्मं विश्वमीश्वरः अव्यक्तं ग्रसदे व्यक्तं प्रत्याहारे च कृष्णशः पुरान्दद्व्यणुकाद्यानां सम्पूर्णे कल्पसङ्क्षये उपस्थिते महाकौरे ह्यप्रत्यक्षेदु कस्यचिद् अन्धे ध्रुमस्य सम्प्राप्ते पश्चिमास्य मनोस्तदा अन्ते कलियुगे तस्मिन् क्षीणे संहार उच्यते सम्प्रक्षारे तदा वृत्ते प्रत्याहारे ह्युपस्थिते प्रत्याहारे तदा तस्मिन् भूततन्मात्रसंक्षये महदादिविकारस्य विशेषान्तस्य संक्षये महदादि स्वभावकारिदे तस्मिन् प्रवृत्ते प्रदिसञ्चरे आपोऽग्रसन्ति वैपूर्वं भूमेर्गन्धात्मकं गुमम् आतगन्धा तदो भूमि प्रलयत्वाय कल्पते प्रणष्ठे गन्धतन्मात्रे तोयावस्था धरा भवेद् आपस्तदा प्रविष्टास्तु वेगवत्यो महास्वनाः सर्वमापूरयित्वेदं तिष्ठन्ति विचरन्ति च अपामपि गणो यस्तु द्योद्दिष्वालीयदे रसः नश्यन्त्यापस्तदा तत्र रसतन्मात्रसंक्षयाद तीव्र तेजोहृदरसाज्यो दिष्ट्वं प्राप्नुवन्त्युद ग्रस्तेजसलिले तेजसर्वतो मुखमीक्षते अधाग्नि सर्वदो व्याप्त आदत्ते तज्जलं तदा सर्वमापूयतेऽर्चिर्भिस्तदा जगदिदंशनैः अर्चिर्भिस्सदे तस्मिं तर्यग्ूर्ध्वमतस्ततः ज्योतिषोऽपि गुणं रूपं वायुरत्तिप्रकाशकं प्रलीयते तदा तस्मिन् दीपार्चिरिव मारुदे रूपतन्मात्रे हृदरूपो विभावसुः उपशाम्यदि ते जोहि वायुराधूयते महान् निरालोके तदालोके वायुभूते चेजसी ततस्तु मूलमस्साद वायुसबंध ऊर्धाश्चति दोधवीधिदिशो दशवारिगुण स्पर्शमाकाशम ग्रसते चत प्रशाम तदा वायुकंदुतिष्यनावृत अरूपमरसस्पर्शमगन्धं न च मूर्तिमद् सर्वमापुरयच्छब्दैः सुमहत्तत्प्रकाशदे तस्मिल्लीने तदाशिष्टमाकाशं शब्दलक्षणं शब्दमात्रं तदाकाशं सर्वमावृत्य तिष्ठति तत्र शब्दं गुमं तस्य भूदधिर्ग्रसदे पुनः भूदेन्द्रियेषु युगपद्भूदादौ संस्थितेषु वै अभिमानात्मको ह्येष भूदादिस्तामसस्मृतः भूदादिर्ग्रसदे चापि महान् वै बुद्धिलक्षणः महानात्मादुविज्ञेयसङ्कल्पो बुद्धिर्मनश्च लिङ्गं च महान् अक्षर एव च पर्यायवाचकैः शब्दैस्तमाहुस्तत्त्वचिन्तकाः सम्प्रलीनेषु भूतेषु गुणसाम्ये ततो महान् लीयन्ते गुणसाम्यं तु स्वात्मन्येवावतिष्ठते लीयन्ते सर्वभूतानां कारणानि प्रसङ्गमे इत्येष संयमश्चैव तत्त्वानां कारणैः सह तत्त्वप्रसंयमो ह्येष स्मृतो ह्यावर्तको द्विजाः धर्माधर्मौ तपोज्ञानं शुभं सत्यानृदे तथा ऊर्ध्वभावो ह्यधो भावः सुखदुःखे सर्वमेतत्प्रपञ्चस्थं गुणमात्रात्मकं स्मृतं निरिन्द्रियाणाञ्च तदाज्ञानिनां यच्छुभाशुभं प्रकृत्याञ्चैव तत्सर्वं पुण्यं पापं प्रतिष्ठति यात्यवस्तादुस् चैव देहिनां दे तु अवस्थास्थानि तान्येव पुण्यपापानि जन्तवः योजयन्ते पुनर्देहान् परत्वेन तथैव च धर्माधर्मं तु जन्तूनां गुणमात्रात्मकावुभौ कारणैस्वैः प्रचीयते कायत्वेनेह जन्तुभिः सचेतनाः प्रलीयन्ते क्षेत्रज्ञाधिष्ठिदा गुणाः सर्गे च प्रतिसर्गे च संसारे चैव जन्तवः संयुज्यन्ते वियुज्यन्ते कारणै संचरन्ति च राजसी तमसि चैव सात्विकी चैव वृत्तयः गुणमात्राः प्रवर्तन्ते पुरुषाधिष्ठता स्थिता ऊर्ध्वदेशात्मकं सत्त्वमधो भागात्मकं तमः तयोः प्रवर्तकं मध्ये इहैवावर्तकं रचक इत्येवं परिवर्तन्ते त्रयश्चेदो गुणात्मकाः लोकेशु सर्वूतान त्यमें विजानता अद्या प्रत्यारंभ आरभ्यि मानव येस्तु गदयस्ति स्रशुभा पावात्म स्मृता तमसोवा जंतुर्यथाभ न विंदी अदत्त स्वदर्शनात् शोधविविधं बध्यते ततः प्राकृतेन च बन्धेन तद्ध्या वैकारिकेण च दक्षिणाभ्यस्तदीयेन बद्धोऽत्यन्तं विवर्तते इत्येते वैत्रयः प्रोक्ता बन्धा ह्यज्ञानहेतुकाः अनित्ये नित्यसंज्ञा च दुःखे च सुखदर्शनम् अश्वेष्वमिति च ज्ञानमश्रुचौ शुचिनिश्चयः येषा मेदे मनो दोषाज्ञानदोषा विपर्ययाद रागद्वेष निवृत्तिश्च तज्ज्ञानं समुदाहृदम् अज्ञानं तमसो मोरम् कर्म धज फल वजह कर्मजस्तु पुनर्देह महादुख प्रवर्त ने जिह्वाख्राणजा तथा पुनर्भवरी दुखा कर्मण जायेदा सतृष्णो बालस्वृद कर्मण फल परिवर्तदे तैलवीडकवजीवस्तत्रैव परिवर्तते तस्मान्मूलमनर्थानामज्ञानमुपदिश्यते तं शत्रुमवधार्यैकं ज्ञाने यत्नं समाचरेत ज्ञानाद्धित्यजदे सर्वं त्यागाद्बुद्धिर्विरज्यते वैराग्याच्छुध्यते चापि शुद्धसत्त्वेन मुच्यते अथ ऊर्ध्वं प्रवक्ष्यामि रागं भूतापहारिणम् अभिष्वङ्गाय योगस्याद्विषयेष्वशात्मनः अनिष्टमिष्टमप्रीतिप्रीतितापविषादनं दुःखलाभेन तापश्च सुखानुस्मरणं तथा इत्येष वैषयो रागसम्बुद्ध्यात् कारणं स्मृतः ब्रह्मादौ स्थावरान् देवै संसारे ह्यादिभौतिके अज्ञानपूर्वकं तस्मादज्ञानं तु विवर्जयेद् यस्य चार्श्वे न प्रमाणं शिष्टाचारम् तथैव च वर्णाश्रमविरुद्धो यः शिष्टशास्त्रविरोधकः हि निरये तिर्यज्ञो नौ कारणं तिर्यज्ञो निगतं चैव कारणं तत्र रुच्यते त्रिविधो यादनास्थाने तिर्यज्ञो नौ षड्विधे करणे विषये चैव प्रतिघादस्तु सर्वशः अनैश्वर्यं तु तत्सर्वं प्रतिघादात्मकं स्मृतम् इत्येषा तामसीवृत्तिर्भूदादीनां च दुर्विधा सत्त्वस्थमात्रकं चित्तं यथा सत्त्वं प्रदर्शनाद् तत्त्वानां च यथा तत्त्वं दृष्ट्वा वै तत्त्वदर्शनाद् सत्त्वक्षेत्रज्ञ नानात्वमेदनार्थदर्शनं नानात्वदर्शनं ज्ञानं ज्ञानाद्वै योग उच्यते तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य संसारे विनिवृत्ते तु निःसम्बन्धो ह्यचैतन्यस्वात्मन्येवावतिष्ठते स्वात्मन्यवस्थितश्चापि विरूपाख्येन लिख्यते इत्येतल्लक्षणं प्रोक्तं समासात् ज्ञानमोक्षयोः स त्रिविधप्रोक्तो मोक्षो वै तत्त्वदर्शिभिः पूर्वं वियोगो ज्ञानेन द्विधीये रागसंक्षयात् तृष्णाक्षया तृतीयस्तु व्याख्यातं मोक्षकारणं लिंगा भावातु कैवल्यं कैवल्यात्तु निरञ्जनम् निरञ्जनत्वाच्छुद्धस्तु निधान्यो नैव विद्यदे अदवूर्ध्वं ऊर्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनाद् दिव्ये च मानुषे चैव विषये पञ्चलक्षणे अप्रद्वेशोन द्वे कर्तव्यो न भिश्वङ्खकर्तव्यो दोषदर्शनाद् कार्यं तु परिवर्जनम् एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत् अनित्यमशिवं दुःखमिति बुद्ध्यानुचिन्त्य च विशुद्धं कार्यकरणं सत्त्वस्यादिनिशैवया परिपक्वकषायो हि कृष्णान् दोषान् प्रपश्यति ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा कूष्मा प्रकुपितः काये तीव्रवायुसमीरितः सशरीरमुपाश्रित्य कृष्णान् दोषान्नृणद्धि वै प्राणधानानि भिन्दन् हि छिन्दन्मर्माण्यतीत्य च शैत्यात् प्रकुपितो वायुरूर्ध्वं क्रमदे ततः स चायं सर्वभूतानां प्राणस्थानेष्वस्थितः समासात्समृद्धे ज्ञाने संसृत्तेषु च कर्मसु स जीवो नाभ्यधिष्ठानकर्मभिस्वैः पुराकृतैः अष्टाङ्गप्रणवृत्तिं वै सविद्यावयते पुनः शरीरं प्रजहन् निरुच्वा सस्तदो भवेद भवेद् एवं प्राणैपरित्यक्रो मृद इत्यभिधीयते यद्धेहलोके स्वप्ने तं नीयमानमिदस्ततः रञ्जनं तद्विधेयस्य ते तान्यो न नृष्णाक्षयस्तृतीयस्तु व्याख्यातं मोक्षलक्षणं शब्दाद्ये विषये दोषदृष्टिर्वै पञ्चलक्षणे अप्रद्वेष्ो नभिष्वङ्गः प्रीतितापविवर्जनं वैराग्यकारणं ह्येदे प्रकृतीनां लयस्य च अष्टौ प्रकृतयो पूर्वोक्ता वै यथा क्रमम् अव्यक्ताद्यास्तु विज्ञेया भूदान्धा प्रकृतेर्भवाः वर्णाश्रमाचारयुक्तशिष्टशास्त्राविरोधनः वर्णाश्रमाणां धर्मोयं देवस्थानेषु कारणम् ब्रह्मादीनि पिशाचान्दान्यष्टौ स्थानानि देवता ऐश्वर्यमाणिमाद्यं हि कारणं शब्दादि लक्षणे अष्टा वेदानि अष्टवेदानिरूपाणि प्राकृतानि यथाक्रमम् क्षेत्रज्ञेष्वनुसज्जन्ते गुणमात्रात्मकानि दो प्रावृत्काले पृथग्मेघं पश्यन्तीव स चक्षुषः पश्यन्त्येवंविधा सिद्धा जीवं दिव्येन चक्षुषा, चक्षुषा। खाततश्चान्नपानानि यो नीः प्रविशतस्तथा तिर्यगूर्ध्वमधस्ताच्च तावतोऽपि यदाक्रमं जीवः प्राणस्तथालिङ्गं करणं च चतुष्टयम् पर्यायवाचकैः शब्दैरेकार्थैःसोऽभिलष्यते व्यक्तव्यक्तप्रमाणोऽयं स वैभुङ्कृत्स्नशः अव्यर्थानुग्रहान्तञ्चक्षत्रज्ञाधिष्ठितं च यद् एवं ज्ञात्वा शुचिर्भूत्वा ज्ञानाद्वै विप्रमुच्यते नष्टं चैव यथा तत्त्वं तत्त्वानां तत्त्वदर्शने यथेष्टं परिनिर्यादिभिन्ने देहे सुनिर्वृते भिद्यते दे करणं च आभिह्यव्यक्तज्ञानिनस्ततः मुक्तो गुणशरीरेण प्राणाद्येन सर्वशः ज्ञान्यच्छरीरमादत्ते दग्धे बीजे यथाङ्कुरः ज्ञानी च सर्वसंसार वेज्ञशारीरमानसः ज्ञाना चतुर्दशा निवर्तते प्रकृतिं सत्यमित्याहुर्विकारो नृतमुच्यते असत् भावो नृतं ज्ञेयं सद्भावः सत्यमुच्यते अनामरूपं क्षेत्रज्ञ नामरूपं प्रचक्षते यस्मात् क्षेत्रं विजानादि तस्मात् क्षेत्रज्ञ उच्यते क्षेत्रं प्रत्ययते यस्मात् क्षेत्रज्ञ शुभ उच्यते क्षेत्रज्ञ स्मर्यते तस्मात् क्षेत्रं तज्ज्ञैर्विभाष्यते क्षेत्रं त्वत्प्रत्ययं धृष्टं क्षेत्रज्ञः प्रत्ययः सदा क्षपणात् कारणाच्चैव क्षतत्राणात् तथैव च भोज्यत्वविषयत्वाच्च क्षेत्रं क्षेत्रविदो विदुः महदाद्यं विशेषान्तं सर्वैरूप्यं विलक्षणम् विकारलक्षणं तद्वै सोऽक्षरः क्षरमेति च तमेवानुविकारं तु यस्माद्वै क्षरदे पुनः तस्माच्च कारणाच्चैव ज्ञरमित्यभिधीयते संसारे नरकेभ्यश्च त्रायदे पुरुषञ्च यद् दुःखत्राणात् सुखदुःखमहम्भावाद्भोज्यमित्यभिधीयते अचेतनत्वाद्विषयस्तद्विधर्मा विभु स्मृतः न नक्षरदि विकारप्रसृतं तु तद् अक्षरं तेन वाप्योक्तमक्षीणत्वात् तथैव च यस्मात् पूर्यनुशेते तस्मात् पुरुष उच्यते पुरप्रत्ययिको यस्मात् पुरुषेत्यभिधीयते पुरुषं कथय स्वाथ कथितोज्ञैर्विभाष्यते शुद्धो निरञ्जनाभासोज्ञादाज्ञानविवर्जितः अस्ति नास्ति इति सोऽज्ञो वा मुक्तो गतस्थितः नैर्हेदुघात्व निर्देश्यादघस्तस्मिन्न विद्यते शुद्धत्वान्नदु दृश्यो वै द्रष्टृत्वात् समदर्शनः आत्मप्रत्ययकारित्वादन्यूनं वाप्यहेदुकम् भावग्राह्यमनुमानचिन्तयन्न प्रमुह्यते यदा पश्यतिज्ञाधारं शान्तार्थं दर्शनात्मकं दृश्यादृश्येषु निर्देश्यं तदा तद्दुर्धरं वरं विज्ञादा न च कारणात्मा नियच्छति प्रकृतौ कारणे तत्र स्वात्मन्येवोपतिष्ठति अस्ति नास्तीति सोऽन्यो वा इह मुत्रेदि वा पुनः एकत्वं वा पृथक्त्वं वा क्षेत्रज्ञपुरुषोऽपि वा आत्मा वा स निरात्मा वा चेदनो चेतनोऽपि वा कर्ता वा सोऽप्यकर्ता वा भोक्ता वा भोज्यमेव च यद्गत्वा न निवर्तन्ते क्षेत्रज्ञं तु निरञ्जनम् अवाच्यं तदनाख्यानादग्राह्यं वादहे दुभिः अप्रतर्क्यमचिन्त्यत्वादवायेत्वा च सर्वशः नालभ्य वचसा तत्त्वमप्राप्य मनसा सह क्षत्रज्ञे निर्गुणे शुद्धे शान्ते क्षीणे निरञ्जने व्यभेद सुखदुःखे च निरुद्धे शान्तिमागदे निरात्मके पुनस्तस्मिन् वाच्यवाच्यं न विद्यते यदौ संहारविस्तारौ व्यक्तव्यक्तौ ततः पुनः सृज्यते ग्रसते चैव व्यक्तौ पर्यवतिष्ठते क्षेत्रज्ञाधिष्ठितं सर्वं पुनः सर्गे प्रवर्तते अधिष्ठानं प्रपद्येद तस्यान्ते बुद्धिपूर्वकम् साधर्म्य वै धर्म्यकृतसंयोगो विदितस्तयोः अनादिमांश्च संयोगो महापुरुषजस्मृतः यावच्च सर्गप्रतिसर्गकालस्तावज्जगत्तिष्ठति संनिरुध्य पूर्वं हितस्यैव च बुद्धिपूर्वं प्रवर्तते तत्पुरुषार्थमेव येषा निसर्गप्रतिसर्गपूर्वा प्राधान्यकी चेश्वरकारिता वा अनाद्यनन्दाह्यभिमानपूर्वकं वित्रासयन्ती जगदभ्युपैति इत्येष प्राकृतसर्गस्तृतीयो हेतुलक्षणः उक्तो ह्यस्मिंस्तदात्यन्तं कालं ज्ञात्वा प्रमुच्यते इत्येष प्रतिसर्गो वस्त्रिविधकीर्तितो मया विस्तरेणानुपूर्व्या च भूय किं वर्तयाम्यहम् इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्ध उपसंहारपादे प्रतिसर्गो नाम तृतीयोऽध्यायः ओम्